गणेशपुराणम् उपासनाखण्डम् अध्यायं फोर्टी नैन् पार्वत्युवाच दयानिधे गिरीन्द्रत्वं पितर्मे वद सत्वरम् उपासनां गणेशस्य सर्वेशस्य जगद्गुरो यया शिवं समभ्येत्य शिवं प्राप्स्यामि शाश्वतम् पि मध्यलोके लोकाना भविष्य हिमवाच तव रहस्यं परमं शुभं शुभम लोकाना चोपकारा पक्ष्ये शुण्वेकसा प्रत्यूष काल उधार दिशमाव्रजेद आच्छाद्यधरणीं पूर्वं तृणकाष्ठदलैरपि उर्वरां वर्जयेत्तिष्ठन्नुत्सर्पं च बुद्धिमान् त्यक्त्वा मूत्र पुरीषेतु यथोक्तं शौचमाचरेद दन्तजिह्वाविशुद्धिं च कृत्वा तदोव्रजेद ततो व्रजेद नदीं तडागं वाबीं वा सरकूपमथापि वा कृत्वा पूर्वं मलः स्नानं मन्त्रस्नानं तदश्चरेद मृदा वा चन्दनेनापि तिलकं कुङ्गुमेन वा कुल्याद्धौदे ससी वैध शुभासने चित्तस्तु सर्वं नित्यं निप्य मृत्ति सुंदरां स्निग्धा क्षुद्र पषाणवर्जिता सुविशुद्धा मवल जल सिदा विमर्द चारुतरमूर्ति गणेश स्वयं सर्वयवसंपूर्ण चुर्भुज विराजिता स्वायु दधतीं सुंदरां खना स्थाप्य पीढ़े तद पाणी मेलये मेलिए पूजाद्रव्याणि सर्वाणि जलादीनि प्रयत्नतः अष्ट गन्धानक्षतांश्च रक्तपुष्पाणि गुगुलुं त्रिपञ्च सप्तभि पत्रायुतान् दुर्वाङ्गुरान् शुभान् अष्टोत्तरशतं नीलान् स्वेदानानीय कृदीपं तैलदीपं नैवेद्यं विविधं शुभं लड्डूकान् पायसं शर्करायुधं सूक्ष्मं च च तण्डुलान्न चव्यञ्जनानि बहूनि च सचन्द्रपूगचूर्णाढ्यं खाद्यखादिरसंयुगम् एलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितं जम्बुवाम्रपनसादीनि द्राक्षारम्भाबलानि च तत्तघृदुभवनीशे नारिकेलानि चानयेद् बहुप्रकारमार्धिक्यं काञ्चनीं दक्षिणां तथा एवं सम्भृतसम्भारेकान्तस्थलमास्थितः चैलाजिने कुशमये आसने च कृदासनः भूतशुद्धिं प्रकुर्वीदप्राणानां स्थापनं तथा दिग्बन्धपूर्वं देवांश्च गणेशादीन्नमेत्पुरा अन्धर्बाहिर्मादृकाश्च न्यसेदागममार्गदः सन्निधामादिकामुद्रा दर्शयेद्गुरुमार्गदः मन्द्रन्यासं तथा कृत्वा षडङ्गन्यासमेव च पूजाद्रव्याणि संशोध्य ततोऽध्यायेद्गजाननम् एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजं पाशाङ्कुशधरं देवं मोदकान् बिभ्रदं करैः रक्तपुष्पमयीं मालां कण्ठे हस्ते परां शुभां भक्तानां वरदं सिद्धि बुद्धि बुद्धिभ्यां सेविदं सदा सिद्धिबुद्धिप्रदं नृणाम् धर्मार्थकाममोक्षदं ब्रह्म रुद्रहरीन्द्राद्यै संस्तुतं परमर्षिभिः आगच्छ जगदाधार सुरासुरवरार्चित अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित स्वर्णसिंहासने दिव्यं नानारत्न समन्वितं समर्पितं मया देव तत्र समुपाविश देवदेवेश सर्वे च सर्वतीर्थाकृतं जलं पाद्यं गृहाणगणपगन्ध पुष्पाक्षतैर्युधं प्रबालमुक्ताफलपुत्ररत्न ताम्बूलजाम्बूनदमष्टगन्धम् पुष्पाक्षतायुक्तमोघशक्रे दत्तं मयार्ख्यं सफलीकुरुष्व गङ्गादि सर्वतीर्थेभ्यः प्रार्थितं तोयमुत्तमं लवंगादिवासिदं स्वी स्वीकुरुप्रभो चम्पकाशोकबकुलमालदी मोकरादिभिः वासिदं स्निग्धदाहेतुतैलं चारुप्रगृह्यतां कामधेनुसमुद्भूतं सर्वेषां जीवनं परं पावनं यज्ञहेतुस्ते पयः स्नानार्थमर्पितम् धेनुदुग्धसमुद्भूतं शुद्धं सर्वजनःप्रियं मया नीतं दधिवरं स्नानार्थं प्रतिगृह्यता नवनीतसमुत्पन्नं सर्वसन्तोषकारणं यज्ञाङ्गं देवदाहारो हृदं स्नातुं समर्पितं पुष्पसारकसम्भुदं सर्वतेजोविवर्धनं सर्वपुष्टिकरं देव मधुस्नानार्थमर्पितं इक्षु सारसमुद्भूतां शर्करां सुमनोहरां मलापहारिणीं स्नादुं गृहाणत्वं मयार्पितां सर्वमाधुर्यताहेदुस्वादुः सर्वप्रियङ्करः पुष्टिकृत्स्नादुमानीत् इक्षुसार भवो गुडः कांस्ये कांस्येन पिहितो दधि मध्वाज्यपूजित मधुपर्को मया निधपूजार्थं प्रतिगृह्यतां सर्वतीर्थाहृदं तोयं मया प्रार्थनया विभो सुवासितं गृहाणेदं सम्यक् स्नातुं सुरेश्वर रक्तवस्त्रयुगं देव लोकलज्जानिवारणम् अनर्घ्यमधिसूक्ष्मं च गृहाणेदं मयार्पितम् राजदम् ब्रह्मसूत्रं च काञ्चनं रत्नसंयुतं भक्त्योपपादितं देवगृहाण परमेश्वर अनेकरत्नयुक्तानि भूषणानि बहुनिच च तत्तद्दङ्गे काञ्चनानि योजयामि तवाज्ञया अष्टगन्धासमायुक्तं रक्तचन्दनमुत्तमं द्वादशाङ्गेषु ते देव लेपयामि कृपां कुरु रक्तचन्दनसम्मिश्रास्तन्तुलां स्तिलकोपरि शोभाय सम्प्रदास्यामि गृहाणजगदीश्वर पाण्डलं कर्णिकारं च बन्धूकं रक्तपङ्कजं मोगरमालदीपुष्पं गृह्यतां परमेश्वर नानापङ्कजपुष्पैश्चग्रथितां पल्लवैरपि बिल्ल्वपत्रयुतां मालां गृहाण सुमनोहरां दशाङ्गं गुग्गुलं धूपं सर्वं सौगन्ध्यकारकं सर्वपापक्षयकरं त्वं गृहाणमयार्पितं सर्वज्ञ सर्वलोकेश तमोनाशनमुत्तमं गृहाणमङ्गलं दीपदेवदेव नमोऽस्तुदे नानापक्वान्नसंयुक्तं पायसं शर्करान्वितं नानाव्यञ्जनशोभाढ्यं शाल्योदनमनुत्तमं दधि दुग्धकृतैर्युक्तं लवङ्गैलासमन्वितं मरीचिचूर्णसहितं क्वथिका वटकान्वितं राजिकाधान्यसंयुक्तं मेधिपिष्टं सतत्रकं हिङ्गुजीरकूष्माण्ड मरीचिमाशपिष्टकैः सम्पादितैः सुपक्वैश्च भर्जितैर्वटकैर्युतम् मोदक पूूकशी मंडकादि पर्पैर संयुग नैवेद्यमृतान्वित हरिद्रा किंगुवणसिम सूपमुम साम मुद्रम गृहां भोजनम गुरसादर सुतृप्तिकोम सुगंधम च पिबेच्छया त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्मनि उत्तरापोषणार्थं ते दत्मितोऽयं सुवासितं मुखपाणिविशुद्ध्यर्थं पुनस्तोऽयं ददामि ते दाडिमं मधुरं निम्बु जाम्बु द्राक्षारम्भाफलम् पक्वं कर्कन्धुकार्जुरं फलम् आरिकेलं च नारिङ्गमाञ्जिरं जम्भिरं तथा उर्वाजुकं च देवेश फलान्येदानि गृह्यतां विशुध्यर्थं, पुनस्तोयं ददामि ते गृहाणचन्दनं चारु कराङ्गोद्वर्तनं शुभं नानापरिमलद्रव्यैर्निर्मितं चूर्णमुत्तमं सुगन्धिनामकं पुण्यगन्धि चारुप्रदृह्यतां चारु चालुरसम्भूतं वंशसारसमुद्भवं श्रीमद्धभूषणं चूर्णं लाक्षारञ्जितमस्तु ते सचन्द्रपूगचूर्णाढ्यं खाद्यखादिरसंयुदं येलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितं न्यूनातिरिक्तपूजाया सम्पूर्ण फलहेतवे दक्षिणां काञ्चनीं देवस्थापयामि तवाग्रतः स्थितपीतैस्तदा रक्तैर्जलधै कुसुमैषुभैः ग्रथितां सुन्दरामालां गृहाणपरमेश्वर हरिताश्वेतवर्णवा पञ्चत्रिपत्रसंयुधाः दूर्वाङ्गुरामया दत्ता एकविंशतिसंमिदाः एकविंशतिसङ्ख्या का कुर्याद्देव प्रदक्षिणाः पदे पदे ते दे देवेश नश्यन्तु पादकानि मे औदुम्बरे राजदेवा कांस्ये काञ्चनसम्भवे प्रागे प्रकल्पितान्दीपान् गृहाण चक्षुरर्पकान् पञ्चारार्तिपञ्चदीपैर्दीपिदां पंचा परमेश्वर चारु चन्द्रनिभं दीप गृहाणवीतिवारणं यथा स्य नेक्ष्यदेभस्म तथा पापं विनाशय स्तोत्रायर्नानाविद्धय सूक्तय सहस्रनामभिस्ततः उपविश्य स्तुवीतैनं कृत्वा स्थिरतरं मनः दीनाधीश दयानिधे सुरगणैः संसेव्यमानद्विज ब्रह्मेशानमहेन्द्रशेषगिरिजा गन्धर्वसिद्धैस्तुत सर्वारिष्टनिवारणैगनिपुनैत्रैलोक्या नाथं प्रभो भक्तिं मे सफलां कुरुष्व सकलां क्ष्वान्द्वा पराधान्मम इति मूर्तिं समभ्यर्थ्य दण्डवत्प्रणिपत्य च जपेन्मन्त्रं तदो देवि सर्वसिद्धिप्रदायकम् इति पार्थिव पूजा गणेशपार्थिवपूजानिरूपणम् नामकोनपंचाशत्तम ओ